अथ त्रिचत्वारिंशोऽध्यायः वैशम्पायनवाच ददर्शस पुरीं रम्यां सिद्धचारणसेवितां सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम् तत्र सौगन्धिकानाम् च पुष्पाणाम् पुण्यगन्धिनाम् उद्वीज्यमानो मिश्रेण वायुना पुण्यगन्धिना नन्दनम् च वनम् दिव्यमप्सरोगणसेवितम् ददर्श दिव्यकुसुमैराह्वयद्भिरिवद्रुमैः न तप्तपसा शक्यो द्रष्टुं नानाहिताग्निना स लोकः पुण्यकर्तॄणां नापि ना युद्धे पराङ्मुखैः न ना यज्वभिर्नाव्रतिकैर्नवेदश्रुतिवर्जितैः नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः नापि यज्ञः नैः क्षुद्रैर्द्रष्टुम् शक्यः तत्र देवविमानानि कामगानि सहस्रशः संस्थितान्यभियातानि ददर्शायुतशत्स्तदा संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः ततो देवाः स गन्धर्वाः सिद्धाश्च परमर्शयः हृष्टा सम्पूजयामासुः पार्थमक्लिष्टकारिणम् आशीर्वादैस्तूयमानो दिव्यवादित्रनिःस्वनैः प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम्